श्रद्धामनारभ्य यज्ञेन यजतेनास्येष्टागश्रद्धतेऽपः प्रणगतिः श्रद्धा वा आपश्रद्धामेवारभ्य यज्ञेन यजत उभयेऽस्य देवमनुष्यायष्टागश्रद्धते ताहुरदिवागे तावत्पन्ने दन्त्रिदिवाचं मनोवा वै तानातिने दन्त्रीतिमनसा प्रणगति यं वै मनोनगी वै नाप्रणयतिष्कन्न हविर्भवति ये ेवं वेद यज्ञायुधानि सम्भरति यज्ञो वे यज्ञायुधानि यज्ञमेव तत् सम्भरति यदेकमेकम् सम्भरेदेवत्यानिश्च यत् सः सर्वाणि यो वेदश यज्ञायुधानि वेदमुखतो यज्ञः कल्पते हवने चूर्पञ्चकृष्णाजिरञ्ज संज्ञा चोलोकलञ्जमुखलञ्जोपलाजीतानि वेद श्रीयज्ञायुषान्येवं वेदमुखतोस्य यज्ञकल्पत यो वै देवेभ्य प्रति प्रोच्च यज्ञ नियजते जुषं देश्य देवाहव्यगं यज्ञेन यजते द्विषन्तेवाव्यमेध वै यज्ञस्य गृहो दृहे त्वैव यज्ञेन यजते तदुजित्वा वाचं यच्छति यज्ञस्य धृत्या सोमनसा वै प्रजापतिर्यज्ञमतनुसमनसैव तद्धन्तनुते रक्षसामनन्नवचाराय यो वै यज्ञं योग आगते युनक्तिं तेजं जाने कस्त्वायुनक्ति सत्त्वायुनक्वित्याह प्रजापतिर्वैकः प्रजापदिनैवैनम् ने युणक्तियुञ्जे युञ्जानेषु जावतर्यज्ञानसृजताग्निहोत्प्राग्निष्टोमं च पौर्णमासे चोख्यञ्जामाभास्यान्दाग्रहात् प्राप्नोदितावदुपाप्नोति एवं विद्वान् बहूनवासि यजते यावदुक्षेण प्राप्नोदितावदुपाप्नो दिवं विद्वान् मास्यां यजते यावदधिरात्रेण प्राप्नोदितावधुपाप्नोति परमेष्ठिनो वा यज्ञोग्रासे तेन समहमान् काष्ठामगच्छत्तेन प्रजापयन् निरवासाय हतेन प्रजापतिः परमा काष्ठामगच्छत्तेनेन्द्र निरवासाय हतेनेन्द्रः परमा काष्ठामगच्छत्तेनामौ निरमासाय यत्तेनाग्मौ परमां काष्ठामगच्छतान्यद्वान् सर्शपूर्णमासो यजते परमामेव काष्ठां गच्छति यो वै प्रजागेन यज्ञेन यजते प्रत्यजा पशुभिनैर्जायते द्वादशमासा संवत्सरो द्वादश द्वन्द्वारिसदर्शपूर्णमासय ष्टानि सम्पाद्याने चुखाञ्चाधिष्ठत्यवहन्ति हृदौ च समाहन्त्य स्तम्भुश्च हरत्यभिज गृह्णादिवेतिं च परिगृह्णादिपत्नीं च सन्नत्य तिप्रोक्षणेश्चासाधगत्याज्यञ्चैतानि वै द्वादश द्वन्द्वानि दर्शवोर्न स्ताणेवकम् सम्पाद्य गजते प्रजातेनैव गजते प्रजगापशुभर्मि समये ध्रुवो सिद्ध्रुवोह किंस जातेज भूयासमित्याह ध्रुवानेवैनान् कुरुतक्रो ग्रोह किंस जातेज भूयासमित्याह प्रतिवादिन एवैनाम् कुरुते विभोरश्च दिवो विभोरहगं सु जातेज भूयासमित्याहय एवैनम् प्रत्युप्पि देतमुपास्यते हिन नैवैनं युनक्ति यज्ञस्य वै समर्ध्येन देवा सुवर्गं लोकमायन यज्ञस्य व्यर्थे नाधुरान् पराभावयन यन्मे अग्ने अस्थ यज्ञस्य दृश्यादित्याह यज्ञस्यैव समर्ध्येन यजमानस्तु वर्गं लोकमेत यज्ञस्य व्यर्थेन भ्रादुर्भ्यान् पदाभावयत्यग्निहोत्रमेताभिर्व्याहृतेभिरुपसादये यज्ञमुखं वा अग्निहोत्रं ब्रह्म व्याहृदयो यज्ञमुख एव ब्रह्म कुरुते संवत्सरे व्याग्रयेताभिरेवोपसादयेत् ब्रह्मणैवो भगतः संवत्सरं परिगृह्णादि कलशभोन्नमासो चादुर्मास्याञ्जानभमानयेताभिर्याहृतेभिर्हवे दुश्यासादरे यज्ञमुखं वै कलशवोन्नमासो चादुर्मास्यानि ब्रह्मैरा व्याहृदयो यज्ञमुख एव ब्रह्म कुरुते संवत्सरे पर्यागत घेताभिदेवासादयेत् ब्रह्मणैव भगतः संवत्सरं परिगृह्णाति यद्वे यज्ञस्य साम्ना जयते राष्ट्रञ् यज्ञस्याशीर्गच्छति हृजाभिषयं यज्ञस्याशीर्गच्छत्य स ब्राह्मणा नाशीर्पेन यज्ञेन यजते सामिधेनेरनुभक्ष्यन् नेता द्याहतेः पुरस्ताद् प्रतिपदं कुरुते तथा ब्राह्मणस्वाशीर्केन यज्ञेन यजते यं कामय रजमानं भ्रातुर्वमस्य यज्ञस्याशीर्गच्छ पुराणभाक्या या दध्याद्भ्रातु वे पुराणभाक्या ेषामेता व्याहृते पुरोनुभाजाया अर्धर्तयेकायै पुरस्तादेका याज्ञाया अर्धर्तयेकान्तशीर्गच्छति यथा वै पर्यन्यस्वपृष्ठं वर्षत्येवै यज्ञो इदमायषतिष्ठलयोदकं परिगृह्णा याशिषा यज्ञमानः परिगृह्णाति मनोभिप्राया पत्यम् मनसा मा भूतेना विषेत्याह मनो वै प्राजावत्यम् प्राजावत्यो यज्ञो मन एव यज्ञमात्मन्धत्ते वागस्यैन्द्रिणपद्मक्षयनी वाचामेन्द्रियेणाविषेत्याहेन्द्रिय वै वाग्वाचमेवैन्द्रियमात्मन्धत्ते यो वै सप्तदशम् प्रजापति यज्ञमन्वायत्तम् वेद प्रति यज्ञेन तिष्ठदिनयज्ञाभ्रगुंशदश्रावये त्रि चतुरक्षरमस्तश्रौषणि ऋषतुरक्षरं यजे द्विक्षरं ये यजामः इति पञ्चाक्षरम् ज्यक्षतोपयत्काल एष वै सप्तदश प्रजापतिर्यज्ञमन्वायत्तो य एवं यज्ञेन तिष्ठदिनयज्ञा यो वै यज्ञस्य प्रागणम् ष्ठामुदयनं वेदप्रतिष्ठितेनारिष्टेन यज्ञेण यज्ञस्थाङ्गच्छत्याश्रावया शुश्रौषज्य जये रामहे वकारभेदद्वये यज्ञस्य प्रायणमेधाप्रतिष्ठेत एवं वेदप्रतिष्ठितेनारिष्टेण यज्ञेन यज्ञस्थाङ्गच्छो वै दो नृता येदोऽहं वेद दोहये वैनां यज्ञो वै दोनृताश्रावयत्यै वैनावक्व श्रौषडित्युपाभाग्यजेद नैषेभ्ये रामःत्युपासन पुरकारेण सो ध्येष वै संस्कृता ये दोह एवं वेद दुभयैवैनाम् देवा वै सप्रमासेशादस्यन्दयेतामार्द्राम् पङ्क्तिमपश्यन्नाश्रावयेति पुरोभातमजनयन्नस्तुश्रौषडित्यभ्रगं नमप्रावय हये प्रावर्षयन्नभ्यस्तनयन्वषत्कारेण ततो मेधेभ्योदिष प्राप्यायन्ते एवं वेदप्रास्मे दिशप्यायन्ते प्रजापतिन्द्वो वेद प्रजापतिस्त्वं वेदयं प्रजापतिर्वेदश पुण्या भवत्यै जैच्छन्दस्य प्रजापतिनाश्रावयास्तस्रौषट्विजामहेवषत्कारो य एवं वेद पुण्या भवति वसन्त मृदूनां ो वै प्रयाजानेव प्रीनावियेऽस्मै प्रीता यथा पूर्वं कल्पन्ते कल्पन्तेऽस्मार्त सोमयो रहन्देव यज्ञया चक्षुष्मान् भूया समित्याहाग्ने सोमाभ्यां वै यज्ञश्चक्षुष्मान्ताभ्यामेव चक्षुरात्मन् धत्ते जग्नेरहन्देव यज्ञयान्नादो भूयासमित्याहाज्ञ वै देवानामन्नादस्तेनैवान्नाव्यमात्मन्धत्तेतभिरस्य लब्ध्वा भूयासममुन्दभेजमित्याहैतया वैलभ्या देवासुरानलभवन्त एव भ्रातुर्यन्द्राज्ञेषोमयोरहन्देव यज्ञया वृत्रहा भोजासमित्याहाग्नेशोमाभ्यां वा इन्द्रो वृत्रमहन्दाभ्यामेव भ्रातुर्यग्रस्तृणुतेन्द्राग्नयोरहन्देव यज्ञ जयेन्द्रियाव्यन्नाद भोजा समित्याहेन्द्रियाव्यन्नादो भवतीन्द्रस्याहं देवयज्ञयेन्द्रियावि भोजा समित्याहेन्द्रियाव्यहेन्द्रस्याहं देवयज्ञया देवानं महिमानङ्गमे जमित्याह जेमानमेव महिमानं गच्छत्यग्ने सृष्टकृतोऽहं देव यज्ञया युष्मारिकेण प्रतिष्ठाङ्गमे जमित्याहयुष् त्वम् धत्ते प्रति यज्ञेन तिष्ठति इन्द्रम् वो विश्वदस्परिहवामहे जनेभ्यः स्वागमस्तु केवलः इन्द्रन्नरो मेमथिताः वन्दे यत्पर्यायुरजतेऽधिगस्ताः शूरो निषादाशवदस्य गान आगोमदिव्रजे भजा त्वन्नः इन्द्रियानिषदक्रतो जाते जनेषु पञ्चसु इन्द्रदानितावरणे अनुदेधाय महेन्द्रियाय धत्रा देव श्रवणवृत्त्रहत्ये अनुक्षत्रमनसहो य छत्रेन्द्रदेवे धरणदेशह्ये आयस्मिन् सप्रवासवास्तिष्ठन्ति स्वारुहो यथा निष्हेर्घश्रुत्वमहिन्द्रस्य घर्मो अतिथिः आवासुपक्वमेव या सूर्ययोहयो घर्मन्नसामन्तपदासुभक्तिभिर्चुष्ठङ्गिर्पणधे गिरः इति न विव्याथिनो गृहजिन्द्रमर्केऽभिरर्किणः इन्द्रम् वानेरणोषतः गायन्धित्वा गायत्रिणोच्चन्त्यर्कमर्किणः ब्रह्माणस्वाशतकृतवद्भगुम् शमिवये विरे अगम्हामुजे प्रभलय मामने शामोऽषिष्ठता पुन्नेषु मतिम् गृणानाः इदमिन्द्रप्रतिहव्यङ्गभागसत्याः सन्त यजमानस्य कामाः विवेदजन्माधिगणाजानस्तवै पुरापार्यादिन्द्रमण्णः अगुमः सोऽयत्र पीपनद्यथा नो नागेभयान्तमुभये हवन्ते प्रसंराजम् प्रथममधरानामगुम्भोमुचम् वृषभम् यज्ञेयानाम् अपान्नपादमश्वि नाहयन्तमस्मिन्नरयिन्द्रियम् धत्तमोजः दिन इन्द्रवधोदिहिणी चायच्छ पृथन्यतः रथस्पदन्तमे अस्माकम् अभिदासति इन्द्रक्षत्रमभि वामोचोजा यथावृषभदर्षणीनाम् अपादोजनामित्रयन्तेभ्यो अरुणोरुलोकान् मृगोलभे मुजराष्ठाः परामराजगामापरस्याः शृगगं सगुंशायविमिन्द्रजग्मम् वि शत्रोधोऽनुदस्रो रविमृधोऽनुविवर्गस्य हनोरुजीन्द्रभामितो मित्रस्याभिलाषदः राता रविन्द्रमविता रविन्द्रकम् हवे हवे सुभपुंसो रविन्द्रम् गुरो रविन्द्रज्ञस्वस्ति नामघवाभात्मिन्द्रः स्वादे अस्यायम् सहसा वन्परिष्टावघाय भौमः यमपरादै प्रायस्वनो मृगे भर्वरोधैस्तव प्रियासः सूर्यः स्याम अनवस्तेरसमश्वायदक्षन्पष्टावज्रम् पुरुहो दद्युमन्तम् ब्रह्मा न इन्द्रम् महयन्तो अर्कैरवर्धयन्नह ये हन्त वावो अनश्वासो ये पवयो रथा इन्द्रेभ्यः व्यवर्तन्तरस्योन् ओ पाकयज्ञम् वान्वाहिताग्ने पशवोपतिष्ठन्तगिता खलु वै पाकयज्ञस्यैषान्तराप्रयाजानो याजानयजमानस्य लोके बहितावा क्रियमाणामभिमन्त्रये तुरूपवर्षवर्णयेशवो वायितावशो नेवोपायते यज्ञं वै देवानुकरणज्ञोऽसुरागम् मधुहत्ते सुराने च दुग्धाः पराभव निजो वै यज्ञस्य वान् यजतेऽप्यन्यै यजमानन्तु हे सा मे सत्याशीरस्य यज्ञस्य भूयादित्या हैषवै यज्ञस्य स हस्तेनैवैरन्तु हे प्रत्तावि गोतुहे प्रत्ययनायजमानाय दुहयेतेवायिणाये स्तनायिणोपहूते वायुर्वत्सो योते नामपक्वयेण तर्हि मानो होतार वीक्षमानो वायुं मनसाभ्याये त्समुपावसृजति सर्वेण वैयज्ञेन देवास्तुवर्गं वाकमायन्वाकयज्ञेन मनुरक्षां व्यत्सेडामनमुपावर्तदतां देवाधुरा व्यक्वयन्द प्रतीजीन्देवाः पराजेमधुराः सा देवानुपावर्तत पशवो वैतद्देवानवृणत पशवोऽधुरानजपर्यङ्कामयेता पशुस्यानति पराजेन्द्रेडां वह्वयेता पशुरेव भवति यङ्काम जेदपशुमान् श्यादिप्रदेशेन्द्रस्य नाम भक्वयेतपशुमानेव भवति ब्रह्मपादिना वदन्ति सत्त्वाय नाम भक्वये रेणामभूयात्मानमिडा याम भक्वजेते निसानप्रिया सुप्रदोहत्कर्मघोने चाहेणामेवोपभूयात्मानमिडा याम भक्वय देव्यस्तमि भवायेतज्जयव्यस्य यदि न ब्रह्मणा देवास्तमन्न ब्रह्म वै देवानां बृहस्पतिर्ब्रह्मणैव यज्ञकं सन्तधा दिविच्छिन्नैतधाः सन्तत्यै विश्वे देवा इहमादयन्तामित्याः सन्तत्यैव यज्ञं देवेभ्यो न दिशदियां यज्ञे दक्षिणाञ्जराजितामस्य पशवो न भाव खलु वै तत्कार्यमित्याहुर्यथा देवत्रा दत्तम् कुर्वेदात्मन्वशोन् भ्रमयेते दिव्रथिस्मेऽप्याह यज्ञो वै रथ्रो यज्ञमेव तन्मह यत्यथो देवत्रैव दत्तम् भ्रमयते ददतो मे माक्षायीक्षितिमेवोपैति कुर्वतो मे मोपदसदित्याह भूमानमेवोपै सर्गश्रवाहसौवर्तनसस्तुमिम् जमोपो जिजिमु जयच्छत्रिणार्गम्भोता भोः कामिडामुपात्मसायुजितामुपात्मैजि भो वा जीत्येति होवाच शरीरम्बा अस्यैतदुपा इति होवाच गौर्वा अस्यै शरीरङ्गाम्भावतो तत्पर्यवदताञ्या यज्ञे दीयते सा प्राणेन देवान्दाधारयया मनुष्या जीवन्ति सा व्यानेन मनुष्यानगाम् पितृभ्यो घ्नन्ति सा बाणेन पितृण यग एवम् वेदपशुवान् भवत्य च वैदामुपा वैदिहो जगा प्रजाः प्रभवन्ते प्रत्याभवतेत्यन्नम्बा अस्येतदुपाकृयि हो वा चौषधयो वा अस्यान्नमोषधयो वै प्रजाः प्रभवन्ते प्रत्याभवन्ति एवं वेदान्नादो भवत्यथ वेदामुपा वैरिहो वा जगाः प्रजाः पराभवन्तिरनुगृह्णादिप्रत्याभवन्तेर्गृह्णादिप्रतिष्ठाम्ब अस्येतदुपा हो वाधेयम् वा स्थे प्रतिष्ठेयम् वे प्रजाः पराभवन्ति रणगृह्णादिप्रत्याभवन्तिर्गृह्णादि एवम् वेद प्रत्ययपतिष्ठकृथवेदावपापैलिभो आदयस्यैनिक्रमणे घृतम् प्रजाः सञ्जीवन्ते पिबन्तीति छिनत्ति सा छिनति ीति होवाचप्रदजनयतेषवायिणामुवासायिल्यभोवाच हो वृष्टिर्वायिणा वृष्टेमे निक्रमणे सुतम् प्रजाः सञ्जीवन्ते पिबन्ति एवम् वेदप्रैव जायते नादो भवति परोक्षम् वा अन्ये देवा युज्यन्ते प्रत्यक्षमन्ये यद् यज देह एव देवाः परोक्षमिज्यन्ते तानेव तद् यज नियदन् वा हार्यमाहरत्येते वै देवाः प्रत्यक्षम् यद्ब्राह्मणास्तानेव तेन प्रेणा यथो दक्षिणैवा सैषासो यज्ञस्यैव छिद्रमपि तथादि यद्वै यज्ञस्य क्रूरम् यद्विनिष्टम् तदन् वा हरजितवा हार्यस्यान्वाहार्यत्वं देवदूता वा एते यदृत्यजोगिदन्वा हार्यमाहरति देवदूतानेव प्रीणादिप्रजापजर्देन यज्ञान्यादिषत्सरिति चानो मन्यतश एतमन्वा देव प्रजापदिवर्ध्नाप्यपदमितो परमितः प्रजापतिः प्रजापदेप्यै देवा मे यद् कुर्वदसुरा कुर्वे देवा एकं प्राजापत्यमन्वाहार्यमपश्यन्तमन्वा हरन्त देवाभवन्परासुरायस्यैवं विदुषोऽन्वाहार्यः क्रियते भवत्यात्मना परास्य भ्रातुर्यो भवति यज्ञेन ैवं विदुषोऽवाहार्या क्रियते सत्त्वे वेष्टा मूर्ति प्रजापतेर्भागोऽसेत्याः प्रजापतिमेव भागधे येन समर्थयत्योर्जस्वान्वयस्वामित्याहोर्जमेवास्मिन्वयो दधादि प्राणापानौ मे वाहे समानज्ञानौ मे पाहेत्याहाशिषमेतामाशास्ते क्षिता क्षित्ये त्वा मामे श्रेष्ठामुत्रामुष्मन्लोकैत्याह क्षीयते वा मुष्कल्लोकेन्न मिलः प्रदानज्ञश्चमुष्मन् लोके प्रजामुपजीवन् बर्हिषोऽहम् देव यज्ञयाः प्रजावाहान् भूयासमित्याः बर्हिषा वै प्रजापदे प्रजा असृजत तेनैव प्रजासृजते न राशंसस्याहम् देव यज्ञया पशुवान् भूयाधमित्याह न राशगंसेन वै प्रजापदे पशूनसृजत तेनैव पशून्सृजते धत्ते प्रतियज्ञेन तिष्ठति दर्शपूर्णमासयोर्वै देवाबुद्धिति मनोजयिन्दर्शपूर्णमासा दे भ्यामसुरानपानुदन्ताग्नेरहमुद्धिति मनोज्जयमित्याह दर्शपूर्णमासयोरेव देवतानायि न मानमुज्जिति मनोज्जयति दर्शपूर्णमासाभ्याम् भ्रातव्यानपनुददेवाचवदेभ्याम् यो हत्यन्नम् वै वाचोन्नमेवावदन्धे भ्याम् प्रतिष्ठत्येयोस्योदोहो विद्वाने यदोभयदेव यज्ञन्तु हे पुरस्ताच्चोपरिष्टाच्चैशवान्यो यज्ञस्य दोहगितायामन्यो यदि होता यजमानस्य नाम गृह्णीया तर्हि ब्रूया देवा अग्मन्नाशिशो दोहकामायव्यस्तुता एव देवता दुहेसोभयदेव यज्ञस्ता परिक्ता चरोहितेन त्वाग्निदेवनाङ्गमयक्ष्मित्याहै देवै देवाश्वायमानः प्रस्तरो विदेव प्रस्तलं प्रहरति देवाश्वैदेवयजमानकं सुवर्गं लोकङ्गमयदिते वै विष्णर्यज्ञकेवान्तरः प्रचतिष्ठति सोमस्याहन्देव यज्ञयासुरेता रेतोऽधिषीयेत्याह सोमो वैरेतोथास्तेनैव रेत आत्मन्धप्ते त्वष्टुरहन्देव यज्ञया पशूनागं रूपं पुषे गमित्याहत्वष्टावै पशूनां मिथुनानागं रूपकृतेनैव पशूनागं रूपमात्मन्धत्ते दे देवानां पत्रे रग्निर्गृहवजज्ञस्य मिथुनन् रहं देव यज्ञयामि सुनेन प्रभूया समित्याहैतस्माद्वै मिथुना प्रजापदर्मिथुनेन प्राजागद तस्मादेव यजमाना मिथुनेन प्रजायते वेदोऽधिमित्येत्याह वेदेन वैदेवासुराणाम् वे भित्तम् वेद्यमविन्दम् दत्तद्वेदस्य वयदत्वं यद्यध्यातु्यस्याभिध्याघे तस्य नाम गृह्णीघातदेवास्य सर्वम् वृङ्क् ङ्कुलागिणकम् राजस्पोषकम् सहस्रिणम् वेदोदताकभाषिणमित्याह प्रसहस्रम् पशूणाः पुनोप्यास्य प्रजायाम् भाजे जायते एवम् वेद ध्रुवाम् वैरुच्यमानाय यज्ञोनरुच्यते यज्ञम् यजमानो यजमानम् प्रजा ध्रुवाप्याजमानाय यज्ञान्वाप्यायते यज्ञम् यजमानो यजमानम् प्रजा आप्यायताम् ध्रुवा ्याहद्ध्रुवामेवाप्याययति कामाप्यायमानान् यज्ञान्वाप्यायते यज्ञम् यजमानो यजमानम् प्रजाः प्रजापतेर्विभान्नाम लोकस्तस्मै यस्तादधामि मानमेव प्रीणात्येतावानवै यज्ञो यावाने यजमान भागो यज्ञो यजमानो यद्यजमानभागं प्राश्चात् यज्ञ एव यज्ञम् प्रतिष्ठापयत्येतद्वै सूयभसकं सोदगं यद्वरिहिपश्चैतद्यजमानस्यायतनञ् यद्वै धर्यत् भोर्न पातमन्तर्वेदि निनयतिष्वेव यतने को प्रेंद वै यज्ञ आपोमृतं यज्ञमेवामृतमात्मन्धत्ते सर्वाणि वै भूतानि व्रतमुपयन्तमनोपयन्ति प्राच्यान्ति देवा इत्युजो मार्जयन्ता विद्या हैष वैदरिषपूर्णमासयोरवभृसो यान्येवैनं भूतानि व्रतमुपयन्तमनोपयन्ति तैरेव सहावभृथम वेदि विष्णुमुखा वै देवाश्चन्दोऽभिरिमान् लोकानापजेयमभ्यजयन यद्विष्णु क्रमान् क्रमदेष्टदेव भूत्वाजमानश्छन्दाभिरिमान् लोकानपदेयमभिजयति विष्णाक्रमास्पभिमादिहेत्याः गायत्री वै पृथिवेत्रैष्टभमन्तरिक्षम् जागदे द्योदानस्त्वभेतच्छन्दाभिरेवेमान् लोकानयथा पूर्वमभिजयति अगन्मसुभः सुवरगन्मेत्याः सुवर्गमेव लोकमेति सन्दृशस्तेमाचित्सियत्ते तपस्तस्मै देवा वृक्षेत्याह यथायजु देवैतत्सुभोर श्रेष्ठो रस्मै नामायुर्धास्यायन्मेधेहीत्याषमेवैतामाशास्ते प्रवागेषोऽस्मान् लोकाच्यवदेयो विष्णुक्रमान् क्रमते सुवर्गाय हि लोकाय विष्णुक्रमाः ्रह्मवादिना वदन्ति सत्त्वैवक्रमान् क्रमे दयिमान् लोकान् भ्रातव्यस्य संवेद्य पुनरिमल्लोकम् प्रत्यवरोहेदित्येश वा अस्य लोकस्य प्रत्यवरोहो यदा हेदमः मम भ्रातव्यमाभ्यो विभ्योऽस्ये दिवयुजीमानेव लोकान् भ्रातव्यस्य संवेद्य पुनरिमल्लोकम् प्रत्यवरोहति संज्योतिषा भूममित्याहास्मिन्नेव लोके प्रजतिष्ठत् येन्द्रैवावृतमन्वा वर्तयित्याहासो वा आदित्य इन्द्रस्तस्यैवावृतमनुपर्यावर्तते दक्षिणा वर्यावर्तते स्वमेव वीर्यमनुपर्यावर्तते तस्मात् दक्षिणोऽर्थ आत्मनो वीर्यावर्ततोऽथो आदित्यस्यैवावृतमनुपर्यावर्तते समहम् प्रजया संवया प्रजयेत्याहाशिषु मे वेतामाशास्ते समिद्धो अग्ने मेधितमे अग्नेतीत्या समित्याः यथा यदेवैतद्वसुमान् यज्ञावशेषान् भूया समित्याः युधमेवैतामाशास्ते बहुवैकादिकपथ्यस्यान्ते मिश्रमिवचर्यतः अग्निपावमाने ्याम् कारिखपत्यमुपतिष्ठते पुना देवाग्नि पुनीत आत्मानन्ताभ्याम् यथा यजुरेवैतच्छतकम् हिमायित्याः सदन्ता हेमन्तानन्दृ दिवा वैदराकपुत्रस्य नाम ग्रन्था च नादमेवैरङ्गरो लिनामाधि समासा चेदन्तो ब्रह्म वर्तसी पुत्रो जायदेतामाजि समाशास्मैपदे ब्रो याजस्य पुत्रो जातस्यात्यजगेवास्मिन् ब्रह्मवर्त्यसन्दधा जयो यज्ञं प्रयुज्य न विमुञ्चत्यप्रतिष्ठाने विमुञ्च द्वित्याह प्रजापगर्वेयः प्रजापति नैवैन युनक्ति प्रजापतिना विमुञ्चति प्रतिष्ठित्यारं वै ्रतपदे व्रदमचारिषमित्याह व्रतमेव विसृज देशान्त्याप्रदाह ज्ञवर्तते पुनर्यो वै यज्ञस्य पुनरालम्भं यद्वामभिनिवर्तते यज्ञो बभूवसा बभोवेत्याहैषवै यज्ञस्य पुनरालम्भस्तेनैवैनं पुनरानभतेण वरुद्धा वागेतस्य विराढ्याहिदाज्ञभः पज वर्तते ै ब्राह्नस्य दभेष्ट्वा मुक्रम्य ब्रूयाब्दो मागम् अग्नेऽभिमागम् अश्मे यज्ञ यद्यपदभागम् रुन्धे प्रसहस्रम् प्रसूना पुनात्या प्रजायाम् वाजीजायते देवसविदप्रसुभयज्ञम् प्रसुभयज्ञपदिम् भगाय दुर्व्योगम् धर्वः एतपोः केदन्नः पुनातु वाचस्प दर्वाच मद्यस्वदादिनः इन्द्रस्य वज्रा शिवात्रभ्यस्तगायम् वृत्रम् वध्यात् वाजस्य न प्रसवे मातरम् महीमधिजन्नामवजसा करामहे यस्यामिदम् विश्वम् भुवनमा विवेशतस्यान्नो देवः सविता धर्मसाविशत् अप्सन्तरमृतमप्सुभे रजमपामुदप्रशस् विश्वश्वा भव स आयुर्वा त्वामनुर्वात्वागन्धर्वाः सप्तविंशतिः ते अग्रे अश्वमायुञ्जन्ते अस्मिन्नवमादधो अपरान्नपादासुहे मनयमोर्म्यक्तन्प्रदोर्चर्वाजसा नमस्ते नायम् वाचगुम्धे विष्णाक्रमादिविष्णाक्रान्तवधिविष्णार्विश्रान्तवस्यङ्कौ णिङ्गामभितो रथञ्जौ भ्रान्तम् वाताक्रमरु सञ्चरन्तो धूरेन्द्रियाभान्वत्रीयः पप्रयः पारयन्तो देवस्याः कंस विदुःप्रथवे बृहस्पतिना वाजलिदावाचेषम् देवस्याः कंस विदःप्रथवे मृगस्पतिना वा जलिदावजय छन्नाकुम् मृगेय इन्द्राय वाचम् वदतेन्द्रम्भाचम् वाजने अश्वाजनिवाचिनिवाजेश्वाचिनेभक्त्यश्वान् समत्सुवाजय अर्वासि अर्वासिसप्तरशिवाज्यशिवाजिनो वाजम् धापदमरुताम् प्रथमे जय रवियोजनामिवे अध्वमध्वनः प्रभ्रेदकाष्ठानाम् गच्छद वाजे वाजेवत वाजिनो नो धनेशिप्रामृतारज्ञाः अस्त्रमध्वप्युपदमादयध्वम् तृप्तागातपतिभद्भेवयानीयेः तेनो अर्वन्तोऽहवनश्रुतोऽहवम् विश्वे शृण्वन्तो वाजिनः मिलद्रवः सहस्रता मेधदाता शिष्यवः मोहो येन त्रयुम्सविशेषु चभृेष भवन्तु वाजिनाहवेषु देवतातामिदर्द्रवः स्वर्गाः न्यम्भयन्तो हिम्मृगुम् रक्षाकुम्सिसने स्मर्जियवण्णमीवाः हेतस्य वाजे क्षिपणीन्तुरन्यतिग्रीवायाम् बद्धो अभि कक्ष आसने ्रामसन्तवे त्वत्प्रथामङ्गागत्यन्वाफणत्मः्रवदसुरन्निरः पर्णन्न वेदनुवादिप्रगर्भिणः शयनश्च वध्रजतोङ्गसम्परितधिक्रापण्णः सहो विद्यालयित्रदः आमावाजस्य प्रसवो जगम् यादाद्यावापृथिवी विश्वसम्भो आमा गन्ताम् वितरा मातराचा मासोऽपो अपगत्पाय गम्यास जिनोपाचति द्वौभाजकम् सरिष्यन्तोपाचम् जेष्यन्तो बृहस्पते भागमवजिघ्रदवाचिनोभाजति द्वौपाचकम् सदृभागम् स्वभाजम् जिगिभागम् स्वबृहस्पते भागे निमर्ध्वमियम् वस्सा सत्या सन्धा भोद्यामिन्द्रेण शमषध्वमजी जिपदपृहस्पतेन्द्रम् वाजम् विमुच्चध्वम् क्षत्रस्योऽनुगमधिक्षत्रस्य योनिरसिजायये सुभोरोहावरोहा वैसुवरहन्ना उभयोः सुभोरोक्षामिवाजश्च प्रसवश्चाभिधश्च कृभश्च मूर्धा व्यष्टयश्चान्दायनश्चान्द्यश्च भुवनश्च भुवनश्चाधिपतिश्च आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पदामपानो यज्ञेन कल्पदाम् ज्ञानो यज्ञेन कल्पदाम् चक्षुरु यज्ञेन कल्पता विश्रात्रै यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वागज्ञेन कल्पदामात्मा यज्ञेन कल्पदाम् यज्ञो यज्ञेन कल्पदातुम् सुवर्देवागुम् अभो प्रजा अभोम प्रजापदय प्रजा अभोम प्रजासमहगम् राजस्पोषेणम् मया राजस्पोषोन्नायत्वान्नाद्यायत्वा वाजायत्वा वाचित्याये वाजा वाजा स्वामृतमधिपुष्टिरधिप्रजननमधि वाजस्येवम् प्रथमस्सु शुभे अग्रे सोमगुम् राजा नमोश्वप्सु अस्मभ्यम् मधुमतेर्भवन्त वयगुङ् राष्ट्रेजाग्र्या पुरोहिताः जस्येवम् प्रथम आपभोपे वाचविश्वाभुवनानि सर्वतः सविराजम् पर्ये निजानम् प्रगणाम् पुष्टिम् बद्धयमानो अस्मे वाजस्येवाम् प्रथमशिश्रियेमाजविश्वाभुवनानि सम्राट् अयित्सन्दन्दाभेदप्रजानम् त्रयम् च नः सर्ववीरान्नियच्छतु अग्ने अच्छावदेहनः प्रतिनः सुमना भव प्रणोयच्छुवस्पदे ध नदाधिनस्त्वम् प्रणोयच्छत्वरि यमा प्रभगः प्रबृहस्पतिः प्रदेवाः प्रोतसोनः प्रभाी ददातुनः अभिगमनम् बृहस्पतिमिन्द्वन्दायचोदय बादा। महारम् विष्णुकुम् सरस्वतीयम् विचारम् च वादिनम् सोमकुम् राजानम् वरुणमग्निमन्वारभामहे आदित्यानविष्णपम् सौर्यम् ब्रह्माणम् च बृहस्पतिम् देवस्य त्वाधविदः प्रथवेश्मिना बाहुभ्याम् ओष्णो हस्ताद्भ्या किम् सरस्वत्ये वाचो यन्तुर्यन्त्रेणाग्ने स्वाधाम्राज्ये नाभिरुञ्जामीन्द्रस्य बृहस्पते स्वाधाम्राज्ये नाभिरुञ्जामि क्षरेण वाचमुदरेणोऽभ्यक्षरेण प्राणावानामुदयतां विष्णुस्त्यक्षरेण जगत्पदपयत्ताक्षरेण मरुदसप्ताक्षरेण सप्तपदा पुंशत्परे मुदरयन् गृहस्परिहताक्षरेण गायत्रीमुदयन् मित्रोऽस्ता यं वरुणमदधाक्षरेण विराजमुदलयक्षरेण मुदलयदेवा द्वादशाक्षरेणवे मुदलयन् त्रयोदशाक्षरेण त्रयोदशग्रस्तो ममुदजयन् रुद्राचतुर्दशाक्षरेण चतुर्दशग्रस्त ममुदजयन्नादित्या पञ्चदशाक्षरेण पञ्चदशग्रस्तो ममुदजयन् नलिषोडशाक्षरेण षोडशग्रस्तो मुदलय जापतिः सप्तदशाक्षरेण सप्तदशज्ञस्त्वाममुदजयत् पयाम गृहेतोऽतिनिषदन्तात् दृषदम् भुवनसदमिन्द्रायतुष्टम् गृह्णामेषायत्वोपयामगृहेतोच्छुषदम् त्वाक्षतसदम् व्यवसदमिन्द्रायतुष्टम् गृह्णाम्येषदेयो निलिन्द्राय त्वोपयामगृहेतोऽति पृथिविषदन्तान्तरिक्षततन्नाकसदमिन्द्रायतुष्टम् गृह्णाम्येषदेयो निरिन्द्राय त्वा ये ग्रहाः पञ्चजलीनायेषा तिस्रः परवचाः परे व्यः कोषः समुब्जितः तेषाम् विषप्रयाणाम् विषमोर्जकम् समग्रभीमेष तेजो जलिन्द्रायत्वा अपागुण्रसमुद्वयसुम्सौर्जरश्मिकम् समाहृतम् अपागम् रथस्य यो रथस्तम्बो गृह्णाम्य प्रमेष अया जनयम् गर्वरासहितुः स प्रत्युदये यद्धरणो मध्वो अग्रग्यस्वायाम् यत्कनुवान् तनु मेदयदा वया गृहेताभि प्रजापदये त्वा दृष्टम् गृह्णाम् एषजयोः प्रजापदय